देवावूचुः त्रायस्वनूद्य देवेश हिरण्यकशिपोर्वधात् त्वम् हि नः परमो धाता ब्रह्मादीनाम् सुरोत्तमा उत्फुल्लपद्मपत्राक्ष शत्रुपक्षभयङ्कर क्षयायदिति वंशस्य भवाद्यनः भीष्म उवाच देवानाम् वचनम् श्रुत्वा तदा विष्णुः शुचिश्रवाः अदृश्यः सर्वभूतानाम् वक्तुमेवोपचक्रमे श्रीभगवानुवाच भयम् त्यजध्वमरा अभयम् वो ददाम्यहम् दा तदेवम् त्रिदिवम् देवाः प्रतिपद्यतमाचिरम् एषोऽहंसगणम् दैत्यम् वरदानेन दर्पितम् अवध्यममरेन्द्राणाम् दानवेन्द्रम् निहन्यहम् ब्रह्मोवाच भगवन्भूतभव्येष खिन्नाह्येते भृशं सुराः तस्मात्त्वम् जहिदैत्येन्द्रम् क्षिप्रम् कालोऽस्यमाचिरम् श्रीभगवानुवाच क्षिप्रं देवाः करिष्यामि त्वरया दैत्यनाशनम् तस्मात् त्वम् विबुधाश्चैव प्रतिपद्यत वैदिवम्